श्रीमद्भागवत् महापुराणं दशं स्कन्ध अथ राजवाच बाणस्य तनयाम् ऊषाम् उपये मे यदुत्तमः तत्र युद्धम् अभुद्धोरं हरिशङ्कर्योर्महत् एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि श्रीशोकुवाच बाणपुत्र सतज्येष्ठो बलेरासीन् महात्मनः येन वामनरूपाय हर्ये दायि मो मेदिनी तस्यौरसुतो बाणशिवभक्तिरथ सदा मान्यो बदान्यो धीमास्य सत्यसन्धो दृढव्रतः सोळिताख्ये पुरे रम्ये स राज्यम् तस्य शम्भो प्रसादेन किङ्करायुते मराः सहस्रबाहुर्वाद्येन ताण्डवेतोषयन्विडं भगवान् सर्वभूतेश शरण्यो भक्तवश्चलः नरेण छन्दयामास स तं वव्रे पुरादिपम् स एकदाः गिरिशं पार्श्वस्थं विर्यदुर्मदः किरीटेनार्कवर्णेन संस्मिसन्तं तदाम्बुजम् नमस्ते त्वां महादेव लोकानां गुरुमीश्वरं पुंसामपूर्णकामानां कामपूरामरा नृपं द्वौ सहस्रं त्वया दत्तं परं भाराय मे भवन् त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समं कण्डुत्या दोर्भे युजुसून् दिग्गजानहम् आद्यायां तुयन्निद्रिन् भीतास्तेऽपि प्रजुद्रुवुः तच्छ्रुत्वा भगवान् क्रुद्धकेतुस्ते भजते स यदां तद्दर्पघ्नं भवेन्मूढ संयुगमस्य मे नस्मे इत्युक्तकृतिष्ट स्वगृहं प्राविश नृप प्रतीक्षन् गिरिसादेशं तस्योषा नाम दुहिता स्वप्ने प्राजुम् निनारतिम् कन्यालभत कान्तेन प्राग्दृष्ट सुतेन साम् सा तत्र तमुपश्यन्ती क्वासिकान्तेति वादि तकीनाम् मध्य बाणस्य मन्त्री कुम्भाण्डचित्रलेखा च तस्सुताम् शक्यप्रेक्षस्वकीमूषाम् कौतूहलसमन्विता कतम् मृगयसे शुभ्रो कीदृशस्ते मनोरथ हस्तग्राहं न तेद्यापि राजप्रद्योपलक्ष्ये उथ उवाच दिष्ट काचिन्नरस्वप्ने श्याम कमललोचनः पीतवासा बृहद्बाहुर्योषिताम् हृदयङ्गमः तमहम् मृगे कान्तम् पायित्वा धरम् मधु कापि यात चित्रलेखोवाच द्यसनं ते पकर्षामी त्रिलोक्यां यदि भाव्यते तमाने से नरं यस्ते मनोहर्ता तमाशिष इत्युक्त्वादेव गन्धर्व सिद्धचारणपन्नगान् दैत्यविद्याधरान्यक्षान्मनुजाश्च यथा लिखत मनुजेषु च सा विष्णुं शूरमानकुदुन्दुभिम् व्यणिगजरामकृष्णौ च प्रद्युम्नं व्यक्षलज्जिता अनुर्द्धं लिखितं विक्षोषा वाङ्मुखी तियां सोऽसावसाविति प्राह स्मे महीपते चित्रलेखातमायाय पौत्रं कृष्णस्य योगिने ययौ विहाय साराजन् कृष्णपालितां तत्र सुपर्यङ्के प्राद्युम्निं योगमासिता गृहीत्वा सोळितपुरं शख्यै प्रियमदर्शयत् सा च सुन्दरवरं विलोक्य मुदितानना दुष्प्रेक्ष्ये स्वगृहे पुष्पुम्भि रे मे प्रादुं निनाशमम् परार्घ्य वास्रगन्धधूपदीपासनादिभिः पानभोजनभक्ष्यैष वाक्यै शुश्रूषयार्चितः गूढकन्यापुरे सस्त्वन्त्रविद्ध स्नेहयातया नाहर्गणान् सद्बुबुधेवूषयापहृतेन्द्रियः तां तथा यद् वीरेण भुज्यमानां हतव्रतां हेतुर्भिर्लक्ष्याश्चक्रु आप्रीतां दुर्वच्छदै भटा आवेदयाश्चक्रु राजंस्ते दुहितुर्वयं विचेष्टितं लक्ष्याम कन्याया कुलदूषणम् अनुपायेभिरस्माभिर्गुप्ताया च गृहे प्रभो कन्याया दूषणं पुम्भे दुष्प्रेक्षाया न विद्महे ततः प्रव्यथितो बाणो दुहितो श्रुतदूषणः त्वरितकन्यकागारं प्राप्तो द्राक्षे जलद्वहम् कामात्मजं तम्भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणं बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मन्दिताननं दिव्यन्तमक्षये प्रियजाभिनिम्नयाम् नदङ्गसङ्गस्तनकुङ्कुमस्रजम् बाहूर्धानम् मधुमल्लिकासितां तस्याग्र आसीनमवेक्ष विस्मितः स तम् प्रवेष्टम् मृतमाततायिभिर्भैरनीकैरवलोक्यमाधव उद्यम्यमौर्वं परिघम् व्यवस्थितो यथान्तकोदण्डधरो जिगांशया जिगिक्षया तान् परितः प्रसर्पत शृणो बली बली, ते हन्यमानाभवनात्मिनिर्गता निर्भिन्नमूर्धोर्भुजा प्रदुद्रुः तं नागपाशै बलिनन्दनो बलि ग्रन्थं ससैन्यं कुपितो बबन्ध ऊषाभिशंसो कविशादवे बला बद्धं निशम्या शुकलाक्षरोदिशे हे श्रीमद्भागुते महापुराणे पारभ्यां सहितायां दशस्कन्धे पुत्रार्धे अनिरुद्धबन्धोनां द्विषष्टितमोऽध्यायः